मन्यमानो हि कः सत्सु पुरुषः परिकीर्तयेत् अन्यपूर्वां स्त्रियम् जातु त्वदन्यो मधुसूदन क्षम वा यदि ते श्रद्धा मा वा क्रुद्धाद्वापि प्रसन्नाद्वा किं त्वत्तो भविष्यति तथा ब्रुवत एवास्य मधुसूदनः मनसा चिन्तयच्चक्रम् दैत्यवर्गनिषूदनम् एतस्मिन्नेव काले तु चक्रे हस्तगते सति उवाच भगवानुच्चैर्वाक्यम् वाक्यविशारदः शृण्वन्तु मे महीपालायेनैतत्क्षमितं मया अपराधशतं क्षाम्यम् मातुरस्यैव याचने दत्तम् मया याचितम् च तानि पूर्णानि पार्थिवाः अधुनावधयिष्यामि पश्यताम् वो महीक्षिताम् एवमुक्त्वा यदुश्रेष्ठश्चेदि राजस्य तत्क्षणात् व्यपाहरच्छिरः क्रुद्धश्चक्रेणामित्रकर्षणः